शान्तिमन्त्राः ॐ श्रीगुरुभ्यो नमः हरि ओं सहनाभवतु सह नो भुनक्तु सह वीर्यं करवावहै तेजस्मिन् मा विद्विषावहै ॐ शान्ति शान्ति शान्तिः हरिः ॐ शन्नो मित्रसंवरुणः शन्नो भवत्वर्यमां श इन्द्रो बृहस्पतिः शो विष्णुरुक्रमः नमो ब्रह्मणि नमस्ते वायु त्वमेव प्रत्यक्षं ब्रह्मासि त्वामेव प्रत्यक्षं ब्रह्म वदिष्यामि ऋतं वदिष्यामि सत्यं वदिष्यामि सन्मामवतु तद्वक्तारमवतु अवतु माम् अवतु ओ शान्ति शान्ति शान्तिः हरिः ॐ भद्रं कर्णेभिः शृणुयामदेवाः भद्रं पश्ये माक्षभिर्यजत्राः शिरैरङ्गै एतुष्टुवागं सस्तनुभिः यशेम देवहितै यदायुः स्वस्ति न इन्द्रो वृद्धश्रवा स्वस्ति न पूषा विश्ववेदा स्वस्ति नस्ताक्षो अरिष्टदेवी स्वस्ति नो बृहस्पतिर्दधातु ॐ शान्ति शान्ति शान्तिः हरिः ॐ नमो ब्रह्मणे नमो अश्वग्नये नमः पृथिव्यै नम ओषधेभ्यः नमो वाचे नमो वाचस्पतये नमो विष्णवे बृ॒हते करोमि ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ यस्न्दसा वृषभोभिश्वरूप छन्दोभ्योऽध्यमृता आसं बभूव समिन्द्रो मेधया आस्मिनोतु अमृतस्य देवधारणो भूयासं शरीरं मे विचर्षणं जेह्वा मे मधुमत्तमा कर्णा आशाम्भूरिविस्रुवम् ब्रह्मण कोशोऽसि मे तया पीता श्रुतं मे गोपाय ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ तच्छय्यो राविणीबहि गातुं यज्ञायं गातुं यज्ञपतये दैवी ईश्वस्तिरस्तु नः स्वस्तिर्मानुषेभ्यः ऊर्ध्वं द्विगातु भेसजं शण्णो अस्तु द्विपदे एवं चतुष्पदे ॐ शान्तिः शान्तिः शान्तिः हरिः ॐ नमो वाचे याचोदिता याचानुदिता तस्यै वाचे नमो नमो वाचे नमो वाचस्पतये नमऋषेभ्यो मन्त्रकृभ्यो मन्त्रपतेभ्यो मामृषयो मन्त्रकृतो मन्त्रपतयपराधर्मा मृषे ऐन् मन्त्रकृतो मन्त्रपतीन् परादाम् वैश्वदेवीं वाचमुद्यासगं शिवा मदस्तां जुष्टा आं देवेभ्य सर्वमेद्यौ शर्मपृथिवी शर्म विश्वमिदं जगता सर्वं चन्द्रश्च सूर्यश्च शर्म ब्रह्म प्रजापति भूतं वदिष्ये भुवनं वदिष्ये तेजो वदिष्ये यशो वदिष्ये तपोवदिष्ये ब्रह्म वदिष्ये सत्यं वदिष्ये तस्मा अहमिन्द्रमुपस्तरणमुपस्तृण उपस्तरणं मे प्रजायै पशूनां भूयादुपस्तरणमहं प्रजायै पशूनां भूयासं प्राणापानौ मृत्योर्मा पातं प्राणापानौ माहासिष्ठं मधुमनुष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतिं देवेभ्यो वाचमुद्यासगं शुश्रूषेण्या आं मनुष्य अभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमरन्तु ॐ शान्ते शान्ति शान्तिः हरिः ॐ मधुवातारिताय ते मधुक्षरन्ति सिन्धवः माध्वे एर्न सन्तोषधिः मधुरक्तमुतोशि मधुमत्पार्थिवगम्ब्रजः मधुद्यौरस्तु न पिता मधुमान्हो वनस्पतिर्मधुमागम् अस्तु सूर्यः माध्वीर्गावो भवन्तु नः ॐ शान्ति शान्ति शान्तिः हरिः ॐ वाङ् मे मनसि प्रतिष्ठिता मनो मे वाचि प्रतिष्ठिता मा विराबिर्म एदि भेदस्यमालिस्त श्रुतं मे मा प्रहासीरणे नादीते नाहोरात्रान् सन्दधामृतं वदिष्यामि सत्यं वदिष्यामि तन्मामवतु तद्वक्ता रमवत्तवतु मामवतु भक्ता रमवतु वक्तारम् ॐ शान्ति शान्ति शान्तिः हरिः ॐ पूर्णमदपूर्णमिदं पूर्णात् पूर्णमुदच्छते पूर्णस्य पूर्णमाधाय पूर्णमेव वशिष्यते ॐ शान्ते शान्तिशान्तिः हरिः ॐ देवहुर्मनुर्यनिर्बृहस्पतिरुक्था मधालीशगं शिशद्विश्वे देवासु उक्तवाच पृथ्वी मातर्मा माहि गंसि मधुमनिष्ये मधुजनिष्ये मधुवक्ष्यामि मधुवदिष्यामि मधुमतिं देवेभ्यो वाचमुद्यासगं शुश्रूषेण्या आम् मनुष्ये अभ्यस्तं मा देवा अवन्तु शोभायै पितरोऽनुमदन्तु ॐ शान्ति शान्ति शान्तिः हरिः ॐ तस्सत् श्रीरामकृष्णार्पणमस्तु